मुद्गलपुराणं खण्डं फैव् लम्बोदरचरितम् अध्यायं फोर् क्रोधासुरब्रह्माण्डविजयम् श्रीगणेशाय नमः ब्रह्मोवाच ततः किञ्चिद्गदे काले क्रोधो हर्षसमन्वितः उवाच बलिमुख्यांश्च दानवान् गर्वपूरितः क्रोधासुर उवाच शृणुध्वम् दानवाः सर्वे बलिमुख्या महाबलाः ब्रह्माण्डम् प्रजयिष्यामि भवद्भिः संयुदो ह्यहम् तस्य तद्वचनम् श्रुत्वा दैत्या संहर्षिता नृपम् जगुस्तम्भक्तिसंयुक्ता कृत्वा करपुडंवचः बल्याद्या ऊचुः सम्यगुक्तं त्वया नाथः प्रजेष्यामसुराधिपान् त्वत्प्रसादेन दैत्येश आज्ञापयमहासुरान् पराक्रमतुलां तेन तिष्ठन्ति ब्रह्मगोलके निर्भयोऽसि महाराज जय त्वम् सर्वदेवपान् तेषाम् वचनमाकर्ण्य सुरक्रोधप्रहर्षितः शुक्रं नत्वा समान्नाय्य बभौ तेनानुमोदितः ततो दैत्यगणान् सर्वानाजुभावनरैस्वकैः ते सर्वे हर्षसंयुक्ता आययुस्तम् नराधिपम् ततः सैन्यसमायुक्तो निर्जगाममहासुरः चतुरङ्गबलैर्युक्तो पारैः सर्वत्र संबभौ रथस्तश्च स्वयं क्रोधो दैत्यपैः संवृतो बभौ तत्रादौ पृथिवीं जेतुं ययौ भूमण्डले नृपान् बलिमुख्यैर्महावीरैष्ठितैर्यत्र जमानदौ तैर्युद्धं कःपु मान् भूमौ कर्तुं शक्तो भवेत् तदा राजानः शरणं जग्मुर्दैत्येन्द्रभयपीडिताः के जिन्मृताश्च तैर्युद्धं कृत्वाहङ्गारसंयुताः केचिद्राज्यम् परित्यज्य सुदारुणवनं ययुः एवं वसुन्धराम् जित्वा मुमुदुःसप्तसागरम् राज्ञस्ते करदांश्चक्रुर्दैत्या शरणमागतान् मृदास्तेषां सुधा सर्वे करदान् स्थाप्य चक्रिरे वनेषु ये गतास्तेषु दैत्या संस्थापिताश्च तैः बभुः संस्थापिता दैत्याः सर्वत्र नगरेषु वै ततः येयु ययो दैत्येन्द्रमुख्यताः प्रोथा सुरसमयुक्ता जेतुं नागान्महाबलान् दूतमुखेन वृत्तान्तं ज्ञात्वा शेष उदारधीः वरगर्वसमायुक्तं क्रोधं ज्ञात्वा ययौ स्वयं समागतं शेषं ज्ञात्वा समावृतं क्रोधा सुरप्रसन्नात्मा मान्यतं सादरो भवद परभारं वार्षिकम् स वृतः स्वीकृत्य नागपैः दत्त्वा रत्नादिकं शेषो ययौ स्वस्थानमेव च ततः स दैत्यपैः देवस्थानेषु सर्वेषु देवोध्यानान्यभञ्जयत् तदोदूदमहादैत्य प्रेषयामास हर्षितः जगादमखवन्तं च स गत्वा चेष्टितं महद बृहस्पतिं च देवेन्द्रैस्तद इन्द्रः समाययौ तेन संज्ञापितसर्वैः प्रपपालगुहान्तरम् तत् ज्ञात्वा दैत्यपैः सर्वैर्हर्षिधक्रोधकोऽसुरः आययावमरावत्यामिन्द्राः सनस्तिदो भवद देवस्थानानि सर्वाणि विभज्य प्रददौ स्वयम् असुरेभ्यो महा दैत्यास्तिदा बभुः नानाभोगान् प्रभुञ्जाना देवसौख्यकरान् मुनि अन्योन्यस्नेहसंयुक्ता बभूवुः साहसप्रियाः गन्धर्वाश्चारणाद्याश्चाप्सरसस्तान् शिषे विरे दुःखयुक्ता विशेषेण ततः कदाचिद् दैत्येन्द्रो दैत्यपैः संवृतो ययौ सत्यलोकं सुविख्यातं ज्ञात्वा ब्रह्मा पपालः तत्रैव संस्थितो दैत्यक्रोधः परमदारुणः बुभुजे सत्यलोकोऽद्धान् भोगान् दैत्याैर्महाबलैः तदो विकुण्ठमेवं स जगामासुरसंवृदक ज्ञात्वा तत्र स्थितो विष्णुः पपालक्रोधभीदिदः तत्रस्थित्वा स्थित्वा भोगान् भोगान् विष्णुकृतान् स्वयं बुभुजे ज्ञादिभिः सार्धं क्रोधपरमदारुणः कथकैलासकं दैत्यशङ्करं जेदुमाययौ महादेवः पपालैव क्रोधसन्तापदापितः तत्रस्त क्रोधको दैत्यो ननन्दहृदि च अद्भुतं दैत्यै समावृधक्रूरस्तान् जगाद बलान्विदः क्रोधाः सुर उवाच बले रावणमुख्याश्च शृणुध्वं मे वचोहितम् अधुना न जिदं स्थानं वदताहं जयामि तद् दैत्येन्द्रा उजुः सर्वं जिदं त्वया राजन्भानुरेकः सुराधिपः न तदर्थं त्वम् प्रयत स्वासुराधिप जगादक्रोधगो दैत्यस्तदस्तान् हर्षसंयुधः इष्टदेवं मदीयं दम्भानं त्यजद दैत्यपाः तस्य तद्वचनं श्रुत्वा क्षोभयुक्दा महासुराः जगुस्थं मायया भेदपरायणाः अस्माकमिष्टदेवोयं सूर्यस्वामिन्नसंशयः संशयः भजिष्यामो विशेषेण तं सदा भक्तिलालसं देवानां पक्षमुत्सृज्येच्छक्त्यस्माकं हृदं यदि तदा वन्द्योर्यमानाधनान्यधा जयतं बलाद परपक्षाश्रितं देवमस्मत्संहनने रथं जयिष्यामो वयमदोहिदं राजन् समाचर दैत्येशानां वच श्रुत्वा क्रोधसंहर्षितो भवद दूतं सम्प्रेषयामास रावणं गर्वसंयुतं रावणात् सर्ववृत्तान्तं ज्ञात्वा तमुवाच तदा क्रुद्धो भयभीदश्च रविरुवाच देवानां पक्षमुत्सृज्य न भविष्यामि भो दूद देवोऽहं नात्र संशयः उन्मत्तं वरसं युक्तं क्रोधं वद महामदे त्यक्त्वा राज्यं वने भानुर्गतो राज्यं कुरुष्व च एवमुक्त्वा रावणं स सूर्यः सर्वसमन्वितः पपाल लोकमुत्सृज्य रावणस्थं समाययौ ततोधिकर्षितो दैत्यक्रोधो समावृतः अययौ सौरलोकं तं प्राप्य दुर्जनः आत्मानं कृतकृत्यं स मानयामा स दुर्मतिः भूत्वा भोगांश्च बुभुजे परान् ततः संस्थाप्य दैत्येन्द्रान् तेषु स्वर्गेषु दैत्यपः पृथिव्यां नगरं मुख्यमाययौ प्रीति संज्ञकम् क्रोधा सुरोत्सौ तत्रस्थप्रशशासप्रदापवान् त्रैलोक्यं भोग संयुक्तसुहृदानन्ददायकः स्त्रीमांसमदिरासक्तो बभूव विषयप्रियः न बुबोधगदं कालं यथा कालेन वञ्चितः ॐ तत्सदि श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरधरिदे क्रोधासुरब्रह्माण्डविजयो नाम चतुर्थोऽध्यायः ओम्